श्री गुरुभ्यो नम हरि ओ भद्रम कर्णे भीषणुजाव देवा भद्रम पश्ये वाचरा शिंगुवागमशस्तनू भी व्यशेम देवितयु स्वस्ति न इन्द्रवृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेभिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ते शान्ति शान्तिः हरिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं भर्तासि त्वमेव केवलं भर्तासि त्वमेव सर्वं खल्वेदं ब्रह्मासि त्वं नित्यं ऋतं वच्मि सत्यं वच्मि अव त्वं माम् अववक्तारम् अवधातारम् अवा अवधातारम् अवानुचानमवशिष्यम् अवपश्चात् आत अव पुरस्तात् अवोत्तरात् आत अवदक्षिणाता आत अवचोर्धा सर्वतो मां पाहि पाहि समन्तां त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितेजोषि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोषि तर्वं जगदिदं तत्तो जायते सर्वं जगदिदं त्वत्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वा आक्पदानि त्वं गुणत्रयातीतः त्वम् रंग अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वां योगिनोऽध्यायन्ति नित्यं त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वम् इन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमा त्वं ब्रह्मभूर्भुवश्वरो गणादिं पूर्वमुच्चार्यवर्णादिं तदनन्तरम् अनुस्वारपरतरः अर्धे एन्दुलसितं तारेण ऋद्धम् एतत्त मनुष्वरूपं द्कारपो ऊर्वरूपं अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपं नादसन्धानं समेहिता सन्धिः सगम्भिता सन्धिः सैषा गणेशविद्या गणकऋषिः नृतिद्गायत्रीछन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे धीमहि तन्नोदन्ते प्रचोदयात एकदन्तं चतुर्हस्तं पाशमङ्कुशसारिणं रदं च वरदं हस्तैर्विभ्राणं मुचकध्वजं रक्तं लम्बोदरं शुक्रकर्णकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै सुपूजितम् देवं भक्ताकंप देव जगत्कारण्यत आभूत प्रकृत ध्याति यो योगिनां वर नमो व्रातपत नमो गणपतये नमा प्रमथपतये नमस्ते सुलम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदसर्वशेषो योधीते स ब्रह्मभूजाय कल्पते स सर्वविघ्नये न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापा सायमधियानो दिवसकृतं पापं नाशयति प्रातरधीयानो रात्रिकृतं पापं नाशयति सायं प्रात प्रमुद्यानो पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दति इदमथर्वशेषमशिष्याय न देयम् यो यदि मोहान् दाशति श पापीयान् भवति सहस्रावर्तनाद्यं जं काममधीते तं तमलेन साधये अनेन गणपतिमभिसिञ्चति सवाग्मी भवति चतुर्थान् मनस्नन् जपति स विद्यामान् भवति इत्यथर्मणवाक्यम् ब्रह्माध्यावरणं विद्यान्न विभेति कदाचनेति यो दुर्वाङ्कुरैर् यजति भवति योल्लाजैर्य यजति स भवति च भवति यो मोदक् सहस्रेण यजति स वाञ्चितफलमवाप्नोति ज सा जिर्जय सर्व ल्राह्मण सम्य ग्रही ता सूर्यर्चस्वी सूर्य महानद्यां प्रतिमा सन्नी विद्धमंत्रो भवती महाविघ्ना आमुच्य से महादोषा आच्यसे महाप्रत्यवाया आक्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं भेद इत्युपनिषत् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु